हरिः ओ श्रीगुरुभ्यो नमः श्रीसौन्दर्यलहरी दौहित्यनिर्जितजपाकुसुमानुराघम् पासाङ्गुचौ तनुरिभूतारयन्ति ताम्रेक्षणामरुणमाल्या विशेषपूजाम् ताम्बूलभोरितमुखे त्रिपुराम् नमामि सौन्दर्यलहकरे कर्त्रे सर्वमङ्गलधायिने यतिराजायते यतिराजाय नमः ङ्कारहृङ्काररहस्ययुक्त श्रीङ्कारगूडार्तमहाविभूद्य ओङ्कारमर्मप्रतिपादिनीभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॐ हर हि ॐ शिवशक् त्यायुक्तो यदि भवति शक्त प्रभवितुम् न चेदेवम् देवो देव। न खलु कुचलस्पन्दितुमपि अत स्त्वामाराद्याम् हरिहरविरिञ्चातिभिदपि प्रणन्तुम् स्तोतुम् वा कतमकृतपुण्यप्रभवति तनीयांसम् पांसुम् तव चरणपङ्केरुहभवम् विरिञ्चिः विरचयति लोकानविकलम् वहत्येन शौरे कथमपि सकस्रेण चिरसा हरशंशूद्यैनम् भजदि बसिदोद्धूलनविधिम् अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जटानाम् चैतन्यस्तभगमकरन्दसृदिजरी दरिद्राणाम् चिन्तामणिगुणनिका जन्म जलदो निमग्नाम् दंष्ट्रा मुररिपुवराहस्य भवति त्वदन्यपाणिभ्याम् अभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवरा भीत्य दातुम् फलमभि च वाञ्चासमधिकम् शरण्ये लोकानाम् तव हि चरणा वेवनि पुणौ हरिस्त्वामाराध्य प्रणत जन भूत्वा पुररिपुमपि शोभमनयन् रोऽपि त्वाम् न त्वा रतिनयनलेहेन वपुषा मुनीनामप्यन्त प्रभवति हि मोहायमहता दनूपौष्पम् मौर्वी मधुकरमयी पञ्चविचिकाः वसन्तः मलयमरुधा योदनरतः तथापेक सर्वम् हिमगिरिसुते कामपि कृपा अबाङ्गते लब्ध्वा क्वणत्काञ्चीदामा करिकळबकुम्भस्तननता परीक्षीणा मध्ये परिणतचरश्चन्द्रवदना धनुर्बाणान्पाशम् शृणिमपि तदानाकरतलैः पुरस्तादास्ताम्न पुरमतितुराहो पुरुषिका सुधासिन्धोर्मध्ये सुरविटपिवाटी वाटी परिवृते मणिद्वीपे नीपो पवनवति चिन्ता मणिगृहे शिवाकारे मंचे परमशिवपर्यङ्कनिलयाम् भजन्ति त्वाम् धन्या कतिशनिशिदानन्दलहरीम् महीमूलाधारे कमपि पूरे हुतवखम् स्थितम् स्वादिष्ठाने हृतिमरुतमाकाशमुपरि मनोऽपि ब्रू मध्ये सकलमपि बित्त्वा कुलपदम् सगस्रारे पद्मे सखरकसि पथ्या विहरसे सुदादाराशारैश्चरणयुगलान्तर्विगलितैः प्रपञ्चम् सिञ्चन्ति पुनरपि रसाम् नायमहसा अवाप्य स्वाम् भूमिम् स्वमात्मानम् कृत्वा स्वपि शिकुलकुण्डे कुहरिणी चतुर्भि श्रीकण्ठे शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभेषम्बर् नवभिरपि मूलप्रकृतिभिः चतुर्षत् स्वारिंशत् वसुदलकलाक्षत्रिवलय प्रिरेकबीषार्दम् तव चरणकोणा परिणताः त्वदीयम् सौन्दर्यम् तुहिन गिरिकन्ये तुलयितुम् कवीन्द्रा कथमपि विरिञ्चि प्रभृतयः यदा लोकौत्सुक्यात् अमरलना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिच सायुज्यपतवीम् नरम् वर्षीयांसम् नयनविरसम् नर्मसु जटम् तवापाङ्गलोके पथितमनुदावन्ति शतशः गलत्वेणीबन्दा कुचकलशविस्रससियाम् हटा द्रोट्य काञ्चो विगलितदुकूलायुवतयः शितौषट्पञ्चा च द्विसमधिगपञ्चा च दुदके उदाचे द्वाषष्टे चतुरधिग पञ्चा दनिले दिवि द्विषट्त्रिंशन् मनसि च शतषष्टिरिति ये मयूकास्तेषामप्युपरि तव पाताम्बुजयुगम् चरज्योत्स्ना शुद्धा सशियुत जटाजूटमकुट वरत्र सत्राण स्फटिकगुटिका पुस्तककर सकृन्दन्त्वा नत्वा कथमिव सदा सन्निदते मतु क्षीरद्राक्षा मधुरिमधुरीणा पणितयः कवीन्द्राणाम् चेत कमलवनबालातपरुचिम् भजन्ते येषन्त विरिंची भवती विरिञ्चि प्रेयस्या तरुणतरशृङ्गारलघरी गभीराबेर्वाग्भेर्विददि सताम् रञ्जनमी त्रिभिर्वाचा सशिमणि शिलाभङ्गरुचिभे वचिन्यात्याभिस्त्वा सकजननि सञ्चिन्तयति यः सकर्ता काव्यानाम् भवति महदाम् भङ्गिरुचिभिर् वचोभेर्वाग्देवी वदनकमलामोदमतुरैः तनुजायाभिस्ते तरुणतरणि श्रीशरणिभेर् दिवम् सर्वाम् अरुणिमणिमग्नाम् स्मरति यः भवन्त्यस्य त्रस्य वनहरिण चालीन नयनाः स कोर्वश्या वश्या कति कति न गीर्वाणगणिकः मुखम् बिन्दुम् कृत्वा कुचयुगमतस्तस्य तदतो हरार्दम् ध्यायेद्यो हरमहिषिते मन्मतकला स सत्यः संक्षोभम् न यदिव नितायित्यतिलघु त्रिलोकीमभ्यासो किरणनि कुरुम् वामृतरसम् हृदिद्वामादद्धे हिमकरचिलामूर्त्तिमिव यः स सर्पाणाम् दर्पम् च शोक यदि सुदादारशिरय तडिल्लेकातन्वीम् तपनस शिवैश्वानरमये निषण्णाम् षण्णामभ्युपरे कमलानाम् तव कला महापद्माटव्याम् मृदितमलमायेन मनसा महान्तपश्यन्तो दतते परमानन्तलहरीम् भवानि त्वम् दासे मयि वितरदृष्टिम् सकरुणा इति स्तोतुम् वाञ्छन् कथयते भवानि त्वमिति यः तदैव त्वम् तस्मै दिशि निजसायुज्यपदवी मुकुन्द ब्रह्मेन्द्र स्फोटमकुटनीराजिदपदाम् त्वया हृत्वा वामम् वपुरपरितृप्तेन मनसा शरीरार्धम् शम्भो अपरमपि सङ्गे हृदमपूत् यदेतत्वद्रूपम् सकलमरुणाभम् त्रिनयनम् कुचाप्यामानम् रम् कुटिलशिशूडालमकुटम् जगत्सूते हरिरवतिरुद्रक्षपयते तिरस्कुर्वेतत् स्वमपि वा पुरी च स्थिरयति सदा पूर्वः सर्वम् तदिदमनुगृह्णाति च त्रयाणाम् देवानाम् त्रिगुणजनितानाम् तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता तदा हि त्वत्पाधो द्वहनमणिपीठस्य निकटे स्थिता मुकुलितकरोतम् समकुटाः विरिञ्चि पञ्चत्वम् व्रजति हरिराप्नोति विरतिम् विनाशम् कीनाशो भजदि धनदो याति निधनम् महासंहारेऽस्मिन् विगरति शते जबो जल्प शिल्पम् सकलमपि विरचना गते प्रादक्षिण्य क्रमणमचनाद्याहुतिविधिः प्रणामः संवेश सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतो यन्मे विलसितम् सुदामप्यास्वाद्य प्रदिभय जरा मृत्युहरिणी विबध्यन्ते विश्वे वेदे च यत् श्वेलम् कबलितवत का कालकलना न शम्भोस्तन्मूलम् तव जननि ताडङ्कमहिमा किरीटम् वैरिञ्चम् परिहर पुरकैटभः कठोरे कोटीरे स्खलसि जगिजम् बारिमकुटम् प्रणम्रेष्वे तेषु प्रसभमुपयातस्य भवनम् भवस्याभ्युत्तानि तव परिजनोक्तिर्विजयते स्वदेहोद्भूदाभे कृणिबिरणि मात्याभिरभितो अहमेते सदा भावयति यः किमाश्चर्यम् तस्य तृणयन समृद्धिम् तृणयतो महासंवर्ताग्नेर्विरचयति नीराजनविधिम् चतुषष्ट्या तन्त्रे सकलमतिसन्दाय भुवनम् स्थितस्तत्तः सिद्धि प्रसव परतन्त्रैः पशुपतिः पुनस्त्वन् निर्बन्ध दगिल पुरुषार्थैकघटना क्षितिरतरवीशीतकिरणः स्मरोऽहंसच्चक्रस् ददनु च परामारहरयः अमीकृ तिश्रुपिरवसानेषु घटिता भजन्ते वर्णास्ते तव स्मरम् योनिम्लक्ष्मि त्रितयमिदमाधौ तव मनोः निदायैके नित्ये निरवधिमहाबोगरसिकाः भजन्ति त्वाम् चिन्तामणि गुणनिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्त शोरभिकृतदाराहुदिश तैः शरीरत्वम् शम्भो शशिमिहिरवक्षोरुहयुगम् तवात्मानम् मन्ये भगवते नवात्मानमनघम् अथ चेषक्षेषीत्यय उभयसाधारणतया स्थित सम्बन्धो वा समरसपरानन्दपरयोः मनस्त्वम् व्योमत्वम् भूमे। स्वये परिणतायाम् न परम् त्वमेव स्वात्मानम् परिणमयितुम् विश्ववपुषा चिदानन्दाकारम् शिवयोवति भावेन बिभृशे तवाज्ञा चक्रस्तम् परं शम्बुं वन्दे परिमिलितपार्श्वम् परचित यमाराद्यन्भक्त्या रविशिशुषी नाम विषये निरालोके लोके निवसति बालोकभुवने विशुद्धौ ते शुद्ध स्फटिक विचधम् व्योमजनकम् शिवं सेवे देवीमपि शिवसमानव्यवसिता ययोकान्त्या यान्त्या सशिकिरण सारूप्य शरणेः विदूतान्तर्द्वान्ता विलसति शकोरीव जगति समुन्मीलत् संवेत् कमलमकरम् सद्वंद्वं भजेऽहम् सद्वन्द्वम् किमपि महता मानस यदालापादष्टादश गुणितविद्यापरिणतिः यता दत्ते तव स्वादिष्टानि हुतवहमदिष्टाय निरतम् तमीडे संवर्तम् जननि महतीम् ताम् च यदा लोके लोकान् दहति मकसि क्रोधकलिते दयार्द्राया दृष्टे शिशिरमुपचारम् रचयति तडी त्वन्तम् शक्त्या तिमिर परिपन्ति स्फुरणया स्फुरन्नारत्नाभरण परिणद्येत्रदनुषम् तव श्यामम् मेघम् कमपि मणिपूरैकचरणम् निशे वर्षन्तम् हरमिहिरतप्तम् त्रिभुवनम् तव धारे मूले सह समययालास्य परय नवात्मानम् मन्ये नवरसमहताण्डवनटम् उभाभ्या मेदाभ्याम् उदयविधिमुद्दिश्य धया सनादाभ्याम् जज्ञे जनकजननी मत् जगदिदम् गतैर्माणिक्यत्वम् गगनमणिबीशान्द्रघटितम् किरीटम् ते हेमम् हेमगिरिसुते कीर्तयति यः सनीडेयश्चाया चूरण च पलम् चन्द्र च कलम् धनोशौनासीरम् किमिति न निबध्नातिदिषणा दुनो दोद्वान्तम् न स्थूलितदलिते वरवनम् ganasneekdashlakshnam chikorani kurumbam tavashime yadi yam saubhyam sagajamopalam dum sumanaso vasantyasmin manye वलमतनवाटी वाटी विटपिना तनोतोक्षेमम् नव वदन सौन्दर्यलहरी परिवाह श्रोत शरणिरिव सीमन्त वहन्ती सिन्दूरम् प्रबलकपरि भारतिमिर द्विषाम् बृन्दैर्भन्ति कृतमिव नवीनार्ग किरणम् अरालै स्वाभाव्या दलिकलबश्री विरलकैः परीतम् ते वक्त्रम् परिहसति पङ्केरुकरुचिम् तरस्मेरे यस्मिन् दशनरुचि किञ्जल्करुचिरे सुगन्धो मादयन्ती स्मरदगनचक्षोर्मतोलेहः मा लल्लाटम् लावण्य ला द्युतिविमलमाभाते तव यत् द्वितीयम् तन्मन्ये मकोटघटितम् चन्द्रचकलम् विपर्यासन्न्यासा द्रुवयमपि सम्भूय च मितः सुदालेपस्यूती परिणमतिराकाहिमकरः ब्रुवौ बुग्ने किञ्चित् भुवनभयभङ्गव्यसनि ने त्वदीये नेत्राभ्याम् मातोकररुजेभ्याम्रदगुणम् धनुर्मन्ये संव्ये धरकरगृहीतम् रतिपतेः प्रकोष्ठे मुष्टौ च सगयति निगूढान्तरमुमे अह सूते सव्यम् तव नयनमर्कात्मकतया त्रिया माम् वामं दृष्टिर् दरदलित हेमाम्बुजरुचिः समादत्ते सन्ध्या दिवस निचयोरन्दर चरी विशाला कल्याणी स्फुटरुचिरयोद्याकोवलये कृपाधारधारमपि मतुराभोगवति कवन्दी दृष्टिस्ते बहुनहरविस्तार विजया ध्रुवम् तत्तन्नाम व्यवहरणयोग्या विजयते कवीनाम् सन्दर्भ स्तभकमकरन्दैकरसिखम् कटाक्षव्याक्षेप भ्रमरकलभो कर्णयोगलम् अमुञ्चन्तो दृष्ट्वा वनवरसा स्वाधतरलौ असूया संसर्ग दलिकनयनम् किञ्जितरुणम् शिवे तदितरजने कुत्सनपरा सरोषा गङ्गाया चरिते विस्मयवती हराहिब्यो भीता सरसिरुह सौभाग्यजननी स केशोऽस्मेराते मयि जननि दृष्टिम् स करुणा गदे करुत इव पक्ष्माणि ददति पुराम्बेतोच्चित्त व्रचमरसवे द्रावणपले इमे गोत्रा दरपतिकुलो सकलिके तवा कर्णागृष्ट स्मरचर विलासम् विभक्तत्रैवर्ण्यम् व्यधिकरितलीलाञ्जनतया विबाधित्वम् नेत्र त्रतयमिदमीशानदयिते पुनः स्रष्टुम् देवान् द्रुहिणहरि रुद्रानुपरतान् रजः सत्वम् म इति गुणानाम् त्रयमिव पवित्रीकर्तुम् न पशुपतिपरादीन हृदये दयामित्रैर्नेत्रैर् अरुण दवल श्यामरुचिभिः न गङ्गा तपनतनयेधि ध्रुवममम् त्रयाणाम् तीर्थानाम् उपनयसि शम्भेतमनघम् निमेषोन्मेषाभ्याम् प्रलयमुदयम् यादि जगति तवेत्याहुः सन्तो धरणि धरराजन्यतनये त्वदुन्मेषा जातम् प्रलयतः परित्रातुम् शङ्घे परिहृत तवा पर्णे कर्णे जपनयन पैशून्यचकिता निलीयन्ते तो ये नियतमनिमेषा परिकाः इयम् च श्रीर्बद्धत पुटकवाटम् कुवलयम् जगाति प्रत्यूषे निशिच विकटय्य प्रविशति दृशा द्रागीयस्य दरदलितनीलोत्पलरु च दवीयाम् सन्दीनम् स्नपय धन्यो भवति न च देहा निरीयत अरालम् ते पालीयुगलम् अगराजन्यतनये न केषामादत्ते कुसुमचरको दण्टकुतुकम् तिरचीनो अबाङ्गव्यासङ्गो दिशति सरसन्धानदिशणा <laughs> स्फुरद्घण्टाभोग प्रतिपलितताटङ्कयुगलम् चतुर्चक्रम् मन्ये तव मुकमिदम् मन्मतरथम् यमारुह्य दृह्य यवनिरतमर्कें यवनिरतमर्केन्धुचरणम् महावीरो मार प्रमतपतये सज्जितवते सरस्वत्या सूक्ति अमृतलहरी कौशलहरीः पिबन्त्या चर्वाणि श्रवणशोलोकाभ्यामविरलम् चमत्कार श्लाघा चलितशिरश कुण्टलगणो जनत्कारैस्तारैः प्रतिवचनमाचष्टैव ते फलदुबलमस्माकमुचितम् वहत्यन्तर्मुक्त्वा शिशिरकरनिश्वासगलितम् समृद्ध्यायत्ता सा बहिरपि च चदरुचेः प्रवक्ष्ये सादृश्यम् जनयतु पलम् विद्रुमलता न बिम्ब तद् बिम्ब प्रदिपलनरागातरुणितम् कथमिव विलज्जेत स्मितज्योत्स्नाजालम् तव वदनचन्द्रस्य पिबत चकोराणामासे दधिरसतया चञ्चुझटिमा अतस्ते चीतांसो अमृतलकरी माम्ल ऋषयः बिबन्ति स्वच्छन्दम् निशि निशि भृशम् काञ्जि गति अहम् अविश्रान्तम् पत्योर्गुणगणकदाम्रेड जनप जपा तव जननि जिक्वा जयति सरस्वत्या मूर्ती परिणमति माणिक्यवपुष रणी जित्वा दैत्या अपहृतचिरस्त्रैकवचिभिः निवृद्धैश्चण्डाम् च त्रिपुरकर निर्माल्यविमुखैः सशिवि कर्पूर चकला विलीयन्ते मातस्तव वदन ताम्बूलकभलाः विपञ्च्या गायन्ति विविधमपधानम् पशुपतेस्त्वया रब्धे वक्तुम् चलिदचिरसादुवचने तदीयैर्माधुर्यैर् अबलपित तन्त्री निजाम् वीणाम् वाणी निशूलयति शोलेन निभृतम् कराग्रेण स्पृष्टम् तु वत्सलतया गिरीचेनोधस्तम् मुहुरदरपानाकुलतया करग्राह्यम् शम्भोर् मुगमुगुणवृन्तम् गिरिसुते कथङ्कारम् ब्रोमस् तव शु यरहितं भुजाश्लेषान् नित्यम् पुरदमयितु कण्ठकवती तव ग्रीवा दद्दे मुगकमलनाल श्रियमियम् स्वतश्वेता कालागरू बहुलजम्बालमलिना मृणालीलालित्यम् वहदियदोहारलतिका गले रेगास्तिस्रो गदिकमकगीतैकनिपुणे विवाहव्यानद प्रगुणगुणसङ्ख्या प्रतिभुवः विराजन्तेनावित मधुररागाकरभुवाम् त्रयाणाम् ग्रामाणाम् स्थितिनियमसीमान इव ते मृणाली मृद्वीनाम् तव भुजलतानाम् सतशृणाम् चतुर्बी सौन्दर्यम् सरसि ज भवस्तौति वदनैः न केभ्यः सन्द्रस्यन् न कानामुद्योतैर्नवनलिनरागम् नवनलिनरागं कराणाम् ते तेकांतिं कथय कथयामः कथमुमे कयाचिद्वासाम्यम् भजतु कलया यदे यदि क्रीटल्लक्ष्मी चरणतललाक्षारसचणम् समम् देवी स्कन्द द्विपवदन पीतम् स्तनयुगम् तवेदम् न केधम् हरतु सततम् प्रश्नुत यता लोक्या शङ्काकुलित हृदयोः स जनकः स्वगुम्बौ हेरम्ब परिमोचते हस्तेन झटिति अमूते वक्षोजाम् अमृतरसमाणिक्यकुतुपो न सन्देहस्पन्दो नगपदि पताके मनसि नः पिबन्तौ तौ यस्माद् अदितवदू सङ्गरसिकौ कुमारावद्यापि द्विरदवदन क्रौञ्चदलनौ वहत्यम्बस्तम्भेर तनुजकुम्भ प्रकृतिभिः समारब्धामु कामणि पेर् अमलाम् हारलतिका कुचा बिम्बादर रुचिभिरन्दशपलिता प्रतापव्यामिश्रा पुरदमयितो कीर्तिमिव ते धरणि दरकन्ये हृदयतः पयपारावार परिवहति सारस्वतमिव दयावत्या दत्तम् द्रविटशिशुरास्वाद्यतवयत् कवीनाम् प्रौढानाम् अजनि कमनीय कवयिता हर क्रोधज्वलवलिभिर् अवलीडेन अवली वपुषा गभीरे तेनाभिः सरसि कृतसङ्गो मनसि जः मुत्थो तस्माद् अचलतनये धूमलतिका जनस्ताम् जानीते तव जननिरोमावलिरिति यदेतत्कालिन्दी तनुतरतरङ्गाकृतिशिवे कृचेमध्ये किञ्जि जनने तव यद्बाधिसुधिया विमर्दाधन्योन्यम् कुचकलचयोरन्तरगतम् तनोभूतम् व्योम प्रविश दिव नाभिम् कुहरिणीम् स्थिरो गङ्गावर्त स्तनमुकुलरोमावलिलता कलावालम् कुण्ठम् कुसुमचरते जोहुत बुजः रतेर्लीलाघारम् किमपि तव न बिर्गिरिसुते बिलद्वारम् सिद्धेर्गिरिचनयनानाम् विजयते निसर्गक्षीणस्य सनतटबरेण क्लमजुषो न तिलक चनकैस्तुट्यत इव चिरम् ते मद्यस्य त्रुटिततटिनीतीरतरुणा समावस्थोऽस्तेम्नो भवदो कुचलम् चैलतनये कुचौ सत्य स्विद्यतडटितकूर्पास पितुरौ कषन्तौ धोर्मूले कनककलचाभौ कलयत कल तव त्र तुम् तनुभुवा वलग्नम् तनुभुव त्रधानदम् देवी त्रिवलिलवलीवल्लिबिरिव गुरु त्वम् विस्तारम् शिदितरपति पार्वति निजात् निदम्बादाचित्य त्वयि हरणरूपेण निदधे अतस्ते विस्तीर्णो गुरुरयमचेषाम् वसुमती निदम्ब प्राग्भार कगयति लगुत्वम् नयति च करीन्द्राणाम् चुण्डान् कनकदली काण्डपटलीम् उभाभ्यामूरोभ्याम् उभयमभिनिर्जेत्य भवति सुवृत्ताभ्याम् पत्यु प्रणतिकटिनाभ्याम् विधिज्ञे जानोभ्याम् विबुधकरि कुम्ब त्वयमसी पराजेतुम् रुद्रम् द्विगुणचरगर्भौ गिरिसुते निषङ्गौ जङ्गेते विषमविशिकोपाडमकृत यदग्रे दृश्यन्ते दशचरपलापादयुगली न गाश्रच्चद्मान सुरमकुटचाणैकनिशिताः श्रुतीनामूर्धानो ददति तव यो शेखरतया मात शिरशितयया देहि चरणौ ययोपाद्यम् पात पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीरुणकरिचूटा मणिरुचिः अदन्यासक्रीडा परिचयमिवारब्दोमनसः मनसः स्खलन्तस्ते केलम् भवनकलहम् सा शुभगमणिमञ्जीररणित चलादाक्षणम् चरणकमलम् चारु गतास्ते मञ्चत्वम् द्रोहिण हरि रुद्रेश्वरमृतः शिव स्वच्छाया घटितकपटप्रच्छपटः प्रतिपलनरागारुणतया शरीरीशृङ्गारो रसयिव दृशाम् भोक्तिकुतुकम् अरालाकेचेषु प्रकृति सरला चोपा मन्दहसिते चिरीशाबाचित्ते दृषदुपलचोपाकुचतटे वृचन्तन्वीमध्ये मृदुरुरसि विषये जगत्रातुम् शम्भोर् जयति करुणा काशीदरुणा कलङ्गकस्तूरी रजनिकरबिम्बम् जलमयम् कलाबिकर्पूरैर्मकतकरण्डम् निबीडितम् अत स्वद्भोगेन प्रतिदिनमिदं कुहरम् विधिर्भूयो भूयो निबीडयति पुरारातेरन्त पुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणानाम सुलभा तथा ह्येते नीता चतमकमुकासि दिमतुला तव द्वारोपान्त स्थितिविरणिमाद्या विरमराः कलत्रम् वै कति कति भजन्ते न कवयः श्रियो देव्या को वा न भवति पतिकैरपि धनैः मघादेवम् हित्वा तव सति सती नाम चरमे कुचाप्यामासङ्ग कुरवकतरोरप्यसुलभः किरामा कोर्देवी द्रुहिण गृहिणीमागमविधो हरे पत्नीम् पद्मा हरसखशरीमद्रेतनया तुरीया कापि दुरदिगमनिस्सीमहिमा महामाया विश्वम् भ्रमयसि पर ब्रह्म महिषी काले माथ कथयकलिताल तकरसम् पिभेयम् विद्यार्थे तव चरणनिर्णे जनजलम् प्रकृद्यामोकाना अपि च कविता कारणतया कदा दत्ते वाणी मुखकमलताम्बूलरसता सरस्वत्यालक्ष्म्या विधिकरि सपत्नो विगरते रथे पाते व्रत्यम् शितिलयति रङ्गे न वपुषा चिरञ्जीवन्नेव क्षपितपशुपाशव्यधिकर परानन्दाभिक्यम् रसयति रसं त्वद्बजनवान् प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपल जललवैरर्घ्यरचना स्वकीयैरम्बोबीसलिलनिदिसौहित्यकरणम् त्वदीयाभिर्वाग्भी तव जननि वाचाम् स्तुतिरियम् इति श्रीशङ्कराचार्य विरचिता सौन्दर्यलहरी समाप्ता तडिल्लेखा तन्वी तपनस शिवैश्वानरमये निषण्णाम् षण्णामभ्युपरे कमलानाम् तव कला महापद्माटव्याम् मृदितमलमायेन मनसा महान्त दतते परमानन्तलहरीम् वानि दासे मयि वितरदृष्टिम् सकरुणा इति स्तोतुम् वाञ्छन् कथयति भवानि तदैवत्वं तस्मै दिशि निजसायुज्यपदवी मुकुन्द पोटमकोटनीराजिदपधाम् त्वया हृत्वा वामम् वपुरपरितृप्तेन वा मनसा शरीरार्धम् शम्भो अपरमपि शङ्गे हृदमपूत् यदेतत्वद्रूपम् सकलमरुणाभम् त्रिनयनम् कुचाप्यामानम् रम् कोटिलशिशूडालमकुटम् जगत्सूते धाता हरिरवतिरुद्रक्षपयते तिरस्कुर्वन्नेतत् स्वमपि वा तदिदमनुगृह्णाति च शिव तवाज्ञामालम्ब्य क्षणचलितयोर्ब्रूलतिकयोः त्रयाणाम् देवानाम् त्रिगुणजनितानाम् तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता तदा हि त्वत्पाधोद्वघनमणिपीठस्य निकटे स्थिताहेते शश्वन् मुकुलितकरोतम् समकुटाः विरिञ्चि व्रजति हरिराप्नोति विरतिम् विनाशम् कीनाशो भजदे दन दो याति निधनम् वितन्द्री माहेन्द्रि विततिरपि सम्मिलितदृशा महासंहारेऽस्मिन् विगरति स जबो जल्प शिल्पम् सकलमपि मुद्रा विरचना गते प्रादक्षिण्य क्रमणमचनाद्याहुतिविधिः प्रणामः संवेश सुखमखिलमात्मार्पणदृश सपर्यापर्यायस्तव भवतो यन्मे विलसितम् सुदामप्यास्वाद्य प्रदिभय जरा मृत्युहरिणीम् विबध्यन्ते विश्वे विदिचतमगाद्यादिविशदः करालम् यत्श्वेलम् कबलितवत कालकलना न शम्भोस्तन्मूलम् तव किरीटम् वैरिञ्चम् परिहरपुरकैटभवितः कठोरे कोटीरे स्खलसि जगिजम् बारिमकुटम् प्रणम् रेष्वेतेषु तव परिजनोक्तिर्विजयते विजयते कृणिभिरणि मात्याभिरभितो निषेवे नित्ये त्वा अहमिति सदा भावयति यः किमाश्चर्यम् तस्य तृणयन समृद्धिम् तृणयतो महासंवर्ताग्नेर्विरचयति नीराजनविधिम् चतुष्षष्ट्या तन्त्रे सकलमतिसन्दाय भुवनम् स्थितस्तत्तः सिद्धि प्रसवपरतन्त्रैः पशुपतिः पुनस्त्वन्निर्बन्ध दगिलपुरुषार्थैकघटना स्वतन्त्रम् ते तन्त्रम् शिथितलमवातीतरदिदम् शिवशक्ति काम शिथिरतरवीशीतकिरणः स्मरोऽहम्सचक्र ददनु च मी हृल्लेखाभिस्तिश्रुभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवता स्मरम् योनिम् लक्ष्मि त्रितयमिदमाधौ तव मनोः निदायैके नित्ये निरवधिमहाबोगरसिकाः भजन्ति त्वाम् चिन्तामणि गुणनिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्त शोरभिकृतदाराहुदिश तैः शरीर त्वम् शम्भो सशिमिहिरवक्षोरुहयुगम् तवात्मानम् मन्ये भगवति न वात्मानमनघम् अथ चेषक्षेषीत्यय उभयसाधारणतया स्थित सम्बन्धो मनस्त्वम् व्योमत्वम् मरुदसि मरुत्सारतिरसि त्वमापस्त्वम् भूमि स्वये परिणतायाम् न हि परम् त्वमेव स्वात्मानम् परिणमयितुम् विश्ववपुष चितानन्दाकारम् शिव यौवति भावेन बिभृशे तवाज्ञा चक्रस्तम् तपनशिकोडिद्युदिधरम् परम् शम्बुं वन्दे परिमिलितपार्श्वम् परचित यमाराद्यन् भक्त्या रविशिशुषी नाम विषये निरालोके लोके निवसति बालोकभुवने विशुद्धौ ते शुद्ध स्फटिक विशधम् व्योमजनकम् शिवम् सेवे देवीमपि शिवसमानव्यवसिता ययोकान्त्या यान्त्या सशिकिरणसारूप्य शरणेः विदूतान्तर्द्वान्त विलसति शकोरीव जगति समुन्मीलत् संवेत् कमलमखरम् दैकरसिकम् किमपि महता मानस चरम् यदालापादष्टा दश गुणितविद्यापरिणतिः यता दत्ते दोषाद् गुणमखिलमव्यपय इव तव स्वादिष्टानि हुतवहमदिष्टाय निरतम् मीडे संवर्तम् जननि महतीम् ताम् च समया यदा लोके लोकान् दहति मकसि क्रोधकलिते दयार्द्राया दृष्टे शिशिरमुपचारम् रचयति तडी त्वन्तम् शक्त्या तिमिर परिपन्ति स्फुरणया स्फुरन्नारत्नाभरण परिणद्येन्त्रदनुषम् तव श्यामम् मेघम् कमपि मणिपूरैकचरणम् निषेवे वर्षन्तम् हरमिहिरतप्तम् त्रिभुवनम् कवधारे मूले सह समयलास्य परय नवात्मानम् मन्ये नवरसमहताण्डवनटम् उभाभ्या मेदाव्याम् उदयविधिमुद्दिष्ट धयया सनादाभ्याम् जज्ञे जनकजननी मगदिदम् गतैर्माणिक्यत्वम् गगनमणिभीषान्द्रघटितम् किरीटं ते हेमम् हेम गिरिसुते कीर्तयति यः सनीडेयश्चाया चूरण च पलम् चन्द्र च कलम् दुनो दोद्वान्तम् न स्थूलितदलिते वरवनम् गणस्निग्धश्लक्ष्णम् चिकोरनिकुरुम्बम् तव शिवे यदीयम् सगजमुपलब्धुम् सुमनसो वसन्त्यस्मिन्मन्ये वलमतनवाटी विटपिना तनोतोक्षेमम् नव वदन परिवाह श्रोत शरणिरिव सीमन्तशरणिः वहन्ती सिन्दूरम् प्रबलकपरि भारतिमिर द्विषाम् वृन्दैर्भन्ति कृतमिव नवीनार्गकिरणम् अरालै स्वा भाव्या श्री विरलकैः परीतम् ते वक्त्रम् परिहसति पङ्केरुकरुचिम् तरस्मेरे यस्मिन् दशनरुचि किञ्जल्करुचिरे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 भुवनभयभङ्गव्यसनिनिनि ने त्वदीये नेत्राभ्याम् मातोकररुजेभ्याम्रदगुणम् धनुर्मन्ये संव्ये करकरगृहीतम् रतिपतेः प्रकोष्ठे मुष्टौ च सगयति निगूढान्तरमुमे अह सूते सव्यम् तव नयनमर्कात्मकतया त्रिया माम् वामं रजनीनायकतया तृतीया ते दरदलित हेमाम्बुजरुचिः समादत्ते सन्ध्या दिवसनिचयोरन्दरचरी विशाला कल्याणी स्फुटरुचिरयोद्याकोवलयैः कृपाधारधारः किमपि मतुराभोगवति कवन्दी दृष्टिस्ते बहुनगरविस्तार विजया ध्रुवम् तत्तन्नाम व्यवहरणयोग्या विजयते कवीनाम् सन्दर्भ स्तभकमकरन्दैकरसिकम् कटाक्षव्याक्षेप भ्रमरकलभो कर्णयोगलम् अमुञ्चन्तो दृष्ट्वा तव न वरसा स्वाधतरलो असूयासंसर्ग दलिकनयनम् तदितरजने कुत्सनपरा सरोषा गिरिच चरिते विस्मयवती हराहिब्यो भीता सरसिरुहसौभाग्यजननी स केशोऽस्मेराते मयि जननि दृष्टिम् स करुणा गदे कर्णाभ्यर्णम् करुत इव पक्ष्माणि ददति पुराम्बेतोच्चित्त व्रचमरसवे द्रावणपले इमे नेत्रे गोत्रा दरपतिकुलो सकलिके तवा कर्णागृष्ट स्मरचर विलासम् विभक्तत्रैवर्ण्यम् व्यधिकरितलीलाञ्जनतया विबाधित्वम् नेत्र त्रतयमिदमीशानदयिते पुनः स्रष्टुम् देवान् द्रुहिणहरि रुद्रानुपरतान् रजः बिब्रत् म इति गुणानाम् त्रयमिव पवित्रीकर्तुम् न पशुपतिपरादीन हृदये दयामित्रैर्नेत्रैर् अरुण दवल श्यामरुचिभिः न दशोणो गङ्गा तपनतनयेधि त्रयाणाम् तीर्तानाम् उपनयसि शम्भेतमनघम् निमेषोन्मेषाभ्याम् प्रलयमुदयम् यादि जगति तवेत्याहु सन्तो धरणि धरराजन्यतनये त्वदुन्मेषा जातम् प्रलयतः परित्रातुम् शङ्घे परिहृत निमेषास्तवदृचः तवा पर्णे कर्णे जपनयन निलीयन्ते तो ये नियतमनिमेषा परिकाः इयम् च श्रीर्बद्धत पुटकवाटम् कुवलयम् जगाति प्रत्यूषे निशि च विकटय्य प्रविशति दृशा दरदलितनीलोत्पलरु च दवीयाम् संदीनम् मामपि शिवे अनेनायम् धन्यो भवति न च देहा निरीयत वनेवाहर्म्येव समकरनि हिमकरहा अरालम् ते पालीयुगलम् अगराजन्यतनये न केषामादत्ते कुसुमचरको दण्टकुतुकम् यत्र श्रवणपतमुल्लङ्घ्य विलसम् अबाङ्गव्यासङ्गो दिशति शरसन्धानदिश नारद्घण्टाभोग प्रतिफलितताटङ्कयुगलम् चतुश्चक्रम् मन्ये तव मुकमिदम् मन्मतरथम् यमारुह्य दृह्य यवनिरतमर्केन्धुचरणम् महावीरो मार प्रमतपतये सज्जितवते सरस्वत्या सूक्ति अमृतलहरी कौशलहरीः पिबन्त्या चवाणि श्रवणशुलोकाभ्याम विरलम् चमत्कार श्लाघा चलितशिरश कुन्तलगणो जनत्कारैस्तारैः प्रतिवचनमाचष्टैव ते फलदुबलमस्माकमुचितम् वहत्यन्तर्मुक्त्वा शिशिरकरनिश्वासगलितम् समृद्ध्यायत्तासा बहिरपि च मुक्ता चदरुचेः प्रवक्ष्ये सादृश्यम् जनयतु पलम् विद्रुमलता न बिम्ब तद्बिम्ब प्रतिपलनरागातरुणितम् तुलामद्यारोटुम् कथमिव विलज्जेत स्मितज्योत्स्नाजालम् तव वदनचन्द्रस्य पिबत चकोराणामासे ददिरसतया चञ्चुझटिमा अतस्ते चीतांसो अमृतलकरी माम्ल ऋषयः बिबन्ति निशी निशिभृशम् काञ्जि गतियाहं अहम् अविश्रान्तम् पत्योर्गुणगणकदाेडजनप जपापुष्पच्चाया तव जननि जिक्वा जयति सा यदग्रासीनायाम् स्फटिगदृषदच्च सरस्वत्या मूर्ती परिणमति माणिक्यवपुष रणी जित्वा दैत्या अपहृतचिरस्त्रैकवचिभिः निवृद्धैश्चण्डाम् च त्रिपुरकरनिर्माल्यविमुखैः विचाकेन्द्रोपेन्द्रैः स शिवि च त कर्पूर च कला विलीयन्ते मातस्तव वदन ताम्बूलकबलाः विपञ्च्या गायन्ति विविधमपधानम् पशुपतेस्त्वया रब्धे वक्तुम् तदीयैर्माधुर्यैर् अबलपिततन्त्री कलरवा निजाम् वीणाम् वाणी निशूलयति शोलेन निभृतम् कराग्रेण स्पृष्टम् तु हि न मुहुरदरपानाकुलतया करग्राह्यम् शम्भोर् मुगमुगुणवृन्तम् गिरिसुते कथङ्कारम् ब्रोमस् तव शु पुगमोपम्यरहितम् भुजाश्लेषान् नित्यम् वग्रीवा दद्दे मुगकमलनाल श्रियमियम् स्वतश्वेताकालागरू बहुलजम् बालमलिना मृणालीलालित्यम् वहदियदोहारलतिका गले रेगास्तिस्रो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 र्पणदिया नकानामुत्योतैर् नवनलिनरागं नामुद्योतैर्नवनलिनरागम् विहसताम् कराणाम् ते कान्तिम् कथय कथयामकथमुमे भजतु कलया यदि क्रीटल्लक्ष्मी चरणतललाक्षारसचणम् समम् देवी स्कन्द द्विपवदनपीतम् तवेदम् न केधम् प्रश्नुतमुखम् यता लोक्या शङ्काकुलित हृदयोः स जनकः स्वगुम्बौ हेरम्ब परिमृचते हस्तेन झटिति अमूते वक्षोजा अमृतरसमाणिक्यकुतुपो न सन्देहस्पन्दो नगपदि पताके मनसि नः पिबन्तौ तौ यस्माद् अदितवदू सङ्गरसिकौ कुमारावद्यापि द्विरधवदन क्रौञ्चदलनौ वहत्यम्बस्तम्भेर ननुज कुम्भप्रकृतिभिः समारब्धामु कामणि पेर् अमलाम् हारलतिका कुचा भोगो बिम्बादर रुचिभिरन्तश्च पलिता प्रताभव्यामिश्रा पुरदमयितो कीर्तिमिव ते हृदयतः पय पारावार परिवहति सारस्वतमिव दयावत्या दत्तम् द्रविटशिशुरास्वाद्यतवयत् कवीनाम् प्रौढानाम् अजनि कमनीय कवयिता हरक्रोधज्वलवलिभिर् अवलीडेन अवली वपुषा गभीरे तेनाभिः सरसि कृतसङ्गो मनसि जहा समुत्थौ तस्माद् अचलतनये धूमलतिका जनस्ताम् जानीते तव जननि रोमावलिरिति यदेतत्कालिन्दी तनुतरतरङ्गाकृतिशिवे कृचे मध्ये किञ्जि जनने तव यद्बादि सुधिया विमर्दाधन्योन्यम् कुचकलचयोरन्तरगतम् तनोभूतम् व्योम प्रविश दिव नाभिम् स्थिरो गङ्गावर्त स्तनमुकुलरोमावलिलता कलावालम् कुण्ठम् कुसुमचरते जोहुत बुजः रतेर्लीलाघारम् किमपि तव नाभिर्गिरिसुते बिलद्वारम् सिद्धेर्गिरिचनयनानाम् विजयते निसर्गक्षीणस्य सनतटबरेण क्लमजुषो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 कषन्तौ धोर्मूले कनककलचाबौ कलयत कल तव त्र तुम् तनुभुवा वलग्नम् तनुभुव त्रधानदम् देवी त्रिवलिलवलीवल्लिबिरिव गुरु त्वम् विस्तारम् क्षिदितरपति पार्वति निजात् निदम्बादाचित्य त्वयि हरणरूपेण निदधे अतस्ते विस्तीर्णो गुरुरयमचेषाम् वसुमती निदम्ब प्राग्भार स्थगयति लगुत्वम् नयति च करीन्द्राणाम् चुण्डान् कनकदली काण्डपटलीम् उभाभ्यामूरोभ्याम् उभयमभि निर्जेत्य भवति सुवृत्ताभ्याम् पत्यु प्रणति गिरिसुते विधिज्ञे जानोभ्याम् विबुधकरि कुम्ब त्वयमसी पराजेतुम् रुद्रम् द्विगुणचर गर्भौ गिरिसुते निषङ्गौ जङ्गेते विषमविशिकोपाडमकृत यदग्रे दृश्यन्ते दशचरपलापादयुगली न गाश्रच्चद्मान सुरमकुटचाणैकनिशिताः श्रुतीनामूर्धानो ददति तव यो मात शिरशितयया देहि चरणौ पशुपतिजटा जूटतटिनी ययोपाद्यम् पात पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मी अरुणकरिचूटामणिरुचिः नमो वाकं ब्रूमो नयनरमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुटरुचिरसा लक्तकवते असू यद्यन्तो यदपि हननाय प्रमदवनकङ्केलितरवे मृषा कृत्वा गोत्र स्कलनमत स्खलनमतवैलक्ष्यनमितम् ललाटे बर्तारं चरणकमले ताडयतिते ते चिरादन्तचल्यो दहनघृतमुन्मूलितवता तुलाकोटिक्वाणै किलिकिलितमीशा नरिपुणा हिमानीहन्तव्यम् हिमगिरिनिवासैकचतुरो निचायामिद्राणाम् निशिचरमभागे च वरं लक्ष्मीपात्रौ श्रियमधिसृजन्तौ समयिनाम् सरोजम् त्वत्पाधो जननि जयतश्चेत्रमिह किम् पदम् ते कीर्तीनाम् प्रमतमबतम् देवि विबताम् कटिनकमटी कर्परतुला कथम् वा बाहुव्याम् उभयमनकाले पुरभिता यदा दायन्यस्तम् दृषदिदयमानेन मनसा न कैर्नाकस्त्रीणाम् करकमलसङ्कोच शशिभिः तरुणाम् दिव्यानाम् हसत इव ते चण्डिचरणौ फलानि स्वस्तेभ्यम् किशलयकराग्रेण ददता दरिद्रेभ्यो भद्रा ीनेभ्य श्रियमनिचमाशानुसदृशी अमन्तम् सौन्दर्य प्रकरमकरन्दम् विकिरति तवास्मिन् मन्दार स्तभगसुभगे चरणे निमज्जन्मज्जीव करणचरणक्षट् चरणता वदन्यासक्रीडा परिचयमिवारब्दो मनसः स्खलन्तस्ते केलम् भवनकलहम् सा न जहति अतस्तेषाम् शिक्षा शुभगमणि मञ्जीररणित चला दाक्षक्षक्षाणम् चरणकमलम् गतास्ते मञ्चत्वम् द्रोहिण हरि घटितकपट प्रच्छधपटः त्वदीयानाम्बासाम् प्रतिपलनरागारुणतया शरीरीशृङ्गारो रसयिव दृशाम् भोक्तिकुतुकम् अरालाके चेषु सरला प्रकृतिसरला मन्दहसिते चिरीशाबाचित्ते दृषदुपलचोपाकुचतटे वृचन्तन्वीमध्ये मृदुरुरसि विषये जगत्रातुम् शम्भोर् जयति करुणा काशीदरुणा कलङ्गकस्तूरी रजनिकरबिम्बम् जलमयम् कलाबिकर्पूरैर्मरकतकरण्डम् निबीडितम् अदस्त्वगेन प्रतिदिनमिदम् कुहरम् विधिर्भूयो भूयो निबीडयति पुरारातेरन्त पुरमसि सपर्यामर्यादा तरलकरणानाम सुलभा तता ह्येते नीता चतमकमुकासिद्धिमतुला तव द्वारोपान्त कलत्रम् वै दात्रम् कति कति भजन्ते न कवयः श्रियो देव्या को वा न भवति पतिकैरपिदनैः महादेवम् हित्वा तव सति कुचाप्यामा सङ्घ कुरवकतरोरप्यसुलभः किरामाखोर्देवी द्रोहिण गृहिणीमागमविधो हरे पत्नीम् पद्मा हरसखशरीमद्रितनया तुरीया कापि त्वम् दुरदिगमनिस्सीमहिमा महामाया विश्वम् भ्रमयसि पर ब्रह्म माथ कथयकलिताल करसम् पिभेयम् विद्यार्थे तव चरण निर्णे जन जलम् प्रकृद्यामोकाना अपि सरस्वत्यालक्ष्म्या विधिकरिसपत्नो विहरते रथे पाते व्रत्यम् शितिलयति रङ्गेन वपुषा चिरञ्जीवन्नेव क्षपितपशुपाशं व्यधिकर परानन्दाभिक्यम् रसयति रसं त्वद्भजनवान् प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपल जललवैरर्घ्यरचना स्वकीयैरम्बोबी सलिलनिदिसौहित्यकरणम् त्वदीयाभिर्वाग्भी तव जननि वाचाम् स्तुतिरियम् इति श्रीशङ्कराचार्य विरचिता सौन्दर्यलहरी समाप्ता